अथ प्रथमकाण्डे अष्टमप्रश्नः प्रारम्भः ओ... पुरोडाचमष्टाकपालं निर्भवति देवक्षिणाय दे। कृशून्याय अवशीयम् देदन्यैरुदमेककपालम् कृष्णं वास कृष्णदोषं दक्षिणाभि हि स्वाहान्दुषाणुदे भागोगे त्यञ्जलं नलो दक्षिणाज्ञा वैष्णवमेकादशकपालं वा मनो वहि दक्षिणाज्ञेयमेकादशकपालगो हिरण्यं दक्षिणेन्द्रमेकादशकपालं वहि दक्षिणाग्नेयष्टाकपालमैन्द्रं दध्यऋषभो वहि दक्षिणेन्द्राकं द्वादशकपालं वैश्वदेवं चरं प्रथमजवत्सौ दक्षिणा सौम्यक् पश्यामागं चलं वा सौ दक्षिणा क्षिणाष्टाकपालम् निर्भवति सौम्यञ्जलो सा विक्रन्दवादशकपालगो सञ्जलम् बहुष्णञ्जलम् मार्तगो सप्तकपालम् वैश्वमिक्षाञ्जाव्यमेकपालम् एकादशकपालम् मारुधि मामिक्षाम् वारुणी मामिक्षाङ्गायमेककपालम् प्रघास्यामः सजोषसः ोषो न इन्द्रेवा सुस्मते सुन्द देवी यद्ग्रामे नयम् यदेकस्या वैमस्वाहा अक्रम् कर्म कर्मकृतः सह वाचामयो भुवा देवेभ्यः कर्म कृत्वा सम्प्रेतसुधा अन्वयेनैकवदे पुरोडाशमष्टाकपालम् निर्ववति साकम् सौर्येणोऽग्रहमेधिभ्यः सर्वासाम् पूर्णादर्व्योर्णा पुनरावता अस्मै पविक्रयीणावहायषमोर्जगं सकृतो मेधरामि ते निमेधेहि निवेदधे निहारमिन्निमे हरा निहारन्निहरामि ते भ्यः क्रीडिभ्यः प्रोडाशनौ सप्तकपालन्निर्भवति साकमो सूर्येणाद्यदाज्ञेयमष्टाकपालन् निर्भवति सौम्यम् चलगो स वित्रपालको सारस्वदम् जलम्भौष्णम् चरमीन्द्राग्नमेकादशकपालमैन्द्रम् चलम्भैश्वकर्मणमेककपालम् सोमाय पितृपदे पुरोराश्रमालपति पितृभ्यो धानात् पितृभ्यो अग्निष्वात्तेभ्यभिवान्यायतुमहप्रविदामहे चत्वामन्विरपितरा यथा भागम् मन्दत्मोषदृश्यन् वा वयम् मघवङ्गीमयी प्रणोनम् भोर्णवन्दिरस्तुतो या शिवशाक्मनो यो जान्द्रदेहरी अक्षन्नमी मदन्त ह्यवप्रिया अधोषता अस्तोषदस्वभानभोभिप्रालविष्टयामती यो यान्विन्द्रदेहरी अक्षन्वितरोमि मृदन्तमितरोगी त्रिदन्तमितरोमी मृदन्तपितरः हरेतमितरः सौम्यागम्भीरैः पथिभिः पूर्व्यै तथा अपीतय मेन ये स धमादम् मदङ्गीवाहुवामहे नाराशुसेन सोमेन वितृणाञ्जनवि त्वे दक्षाय देवसेक्षौर्यम् दृशे पुनर्नपितरो मनो ददा तदैव जनः एवम् राजगो सचे महिक्षम् पृथ्वी मदत्याम् पितरम् वाजी अभ्यर्मादस्मादेन सौकारः वत्यप्रपञ्च त्यन्दोष्ठैक एव रुद्रानीयाय रस्थ आकृष्टरुद्रवशुस्तञषस्फेशतेरुद्रभागस्सहस्रस्राम्बिकया तन्ुषस्ङ्गवेश्वाय पुरुषाय भेषजमथो अस्मभ्यम्भेषजो सुभेषदं यथा सति सुरम्भेषाय मेष्या अवाम्बरुद्रमधिमह्यवदेवन्त्रियं मृगम् व्यवसाययाद। स्य सखलभ्यधानः पशुपदः व्यवसायम् मुष्ट्यवर्धनम्बन्धनान् मृत्योर्मुक्षीयमावृता एषदेगस्वञ्जशस्वनावसेन परोमूल्यमतो गेह्यावदथन्नाम्नाकः स्वकृतिवासाः वादशकपालं वैष्णदेवं जलमिन्द्राय शुमासीराय पुरोडाशं द्वादशपालं वाक्षिणाय देवाले हेत्राणनेत्रावपरिषदो बृहस्पद नेत्रा रक्षाणस्त्यानः वन्धुदेभ्य नमस्तेभ्यः स्वाहा समोढगोरक्षः सन्दर्घ्यगोरक्ष इदमह गोरक्षासन्दहाय समित्रे वरुणाय गृहस्पदे रक्षे स्वाहा पृष्ठधाक्षिणाभ्याम् गोष्णा हस्ताभ्या गोरक्षसन्तु होमि हत गो रक्षा वृष्टक्षाय रथस्ते हदक्षिणा डा शन्तादशकपालवचनवत्यै जलो लाकायैष्णवमेकादशकपालवत्यैन्द्रा वैष्णवमेकादशकवालम् वैष्णवं द्रपालं वाम्यमेकादश कालभयेन्द्रा स्वाम्यमेकादशकवालगो सौम्यं चरम् अभवदक्षिणा सोमा पोष्णं चिरं निर्भवत्यैन्द्रा गोष्णं चरं गोष्णं तिरग्मो दक्षिणा वैश्वामरं वादशकवाल निर्पमदेहरण्यन्दक्षिणा वा रुण्यवमयम् चरमस्वादक्षिणा रण्यं दक्षिणावारुणन्दशकपालकौ सोतस्य गृहे महानिरष्टौ दक्षिणावार्तगो सप्तकपालं ग्रामन्यो गृहे दक्षिणासा वित्रन्द्वादशपालो धस्ता दक्षिणा न्द्रकपालनो संग्रहे गर्गृहे समात्यो दक्षिणा कोष्णञ्जलम्भागरुहस्य गृहे श्यामो दक्षिणा रौद्रङ्गा वेदकं जलमक्षाभावस्य गृहे सवानेन मो राजा वृत्रह राजा भो वृत्रं वध्यान्वैत्रावं भगवतिश्वेतायै स्वयं भोते स्वयं रज आध्याश्व कर्णाविष्टा कन्नाविदम् मृदासा मैत्रस्वयम् कृता वेदर्भयम् जलम्बरे स्वयम् मृतयज्ञस्यैव श्वेताश्वत्सा दक्षिणा य प्रभवदये पुरो चोष्ठागपालन्य कृष्णानां व्रीहीणागो सोमाय वनस्पदये शागु समित्रे सत्यप्रसवाय पुरोडाशुद्वादशपामाशुनाम्रीहीणागोरुत्राय पशुपतये काविहस्पदे वाचस्पदय नैवादं चरुन्द्राय ज्येष्ठाय पुदशकपालं महा व्रीहीणां सत्यायणाय धर्मपदयीञ्जरगो सविता त्वाप्रसवानागुसीना ये य मित्राय क्षत्रायत्यायता राजानामराज्ये स्याभो मन्विद्रहे वेदलातिमता रेतसोषदन्त यज्ञेया हृदयमानन्नकृष्णाक्रमासृष्णाक्रान्तमसकृष्णार्विक्रान्त ी नास्थापो देवीराजसूयाभिरन्दमनैत्यराजे न्दस्वा राष्ट्रदास्थराष्ट्रमोष्मेत्रमृष्काणोत्मनामिन्द्रा चन्द्रेणामृताः अस्याः सुचवरणसधस्तमपाकम् शुशुर्मातृतमः स्वन्तः क्षत्रस्य क्षत्रस्य यस्याभिन्न इन्द्रो वृतश्च वा आविन्न पूषा विश्ववेदा आविन्नो मित्रावरुणावृता वाविन् वा पृथिवे आविन्ना देव्यविश्वन् विश्वस्मिन् राष्ट्रे महते क्षत्राय महताधिवत्याय महते जानरात्या भरता राजासौ भागं ब्राह्मणा नागं राजेन्द्रस्य वद्रायुत्र रण्यवर्ण्या वषतां विलोके यस्तो नापदितो सूर्यस्यालोहनम् वर्णमित्यर्थम् तस्य समिधमादिष्टगायत्र्ये त्वाच्छन्दसामोद्रभुस्तोमार्थं तरगोदामार्मिर्देवता ब्रह्मद्रविणमुक्ष् त्वाछन्दसामोदमो भवामेन्द्रो देवताक्षत्रन्द्रविणं विराजमादिष्ट जगदी त्वाचन्दसामोदर्षस्तोमो वै रूपगोतामृतो देवताविन्द्रविणन्दसागवत्रे कविंशस्तोमो वै राजगुण्डामृत्रामरणो देवतापरं द्रविण मोग्धामादिष्टमन्त्रिस्त्वाच्छन्दसामत्रणवत्रे श्री ोतिश्चित्रज्योतिश्च्योतिश्च ज्योतिष्माविश्र ये स्वाहा सोमा स्वाहा चरित्रे स्वाहा सरस्वती स्वाहा भूष्णे स्वाहा बृहस्पति स्वाहेन्द्र स्वाहा घोष स्वाहा शोक स्वाहा गङ्गा स्वाहा धरा क्षेत्रस्व स्वाहा दिवे स्वाहा सूच्रवसे स्वाहा औषधेभ्यस्पतिभ्यस्वाहा चराधरेभ्यः परिप्रवे स्वाहा श्रीष्मेभ्य स्वामस्य त्रिषडे भे देवा देवार्थे न्ते दे प्राणो सुन्तेत्रवदस्य वृषभस्य पृष्ठेनावस्थिरन्ति चियाः नाम तस्मै हतमसि यमेष्टमसि प्रजापतेनत्वदेतानि परिताबभूवस्त्यजुमस्सन्मास्तु ृणयोस्त्वज्ञस्य योगेन विष्णोक्रमाक्रान्तं पृथिवेशमात्रं मनस्स मामिन्द्रियेण वीगेणेभूयान् मात्रे पृथिवी मां मातरं पृथिवीं सु मां माता पृथिवीं सेधी तस्यायुरस्याय ते इन्द्रे ये गृहपदये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रिलामो स्वाहात् पित्रा सुवर्णासमहं विश्वे क्षत्रस्य नाभिरति क्षत्रस्य स्वानामासीद सुषदामासीदमात्वारिंशेन्मायिवंसे वरुणः राज्याय सुक्रब्रह्मासीतासि सत्य ्रह्मासि मित्रोऽधिषेभो त्वं राजिं ब्रह्मासि वर्णोऽसि सत्यसम्मे दस्य पुत्रोऽसि वार्ताग्रस्तेन मेलभ्यति शोभ्यं राजा भूत्सु श्लोका सा होर्ज्वानुत्रे स्वाहाग्नेयगृहे स्वाहा आग्नेयमष्टाकपालन्य सरस्वत्सवे दक्षिणासा वित्रद्वादशकपालोस्तो दक्षिणाश्यामो दक्षिणा वा बृहस्पतिमेकादशकपालम् शुभो दक्षिणा वा ऋणन्दशकपालम् महालिष्ठदक्षिणा सौम्यञ्जलम् अप्रदक्षिणाकपालो दक्षिणा वैष्णवन्त्रिकपालम् वा मनो दक्षिणा क्षयन्ति सत्यस्वामं क्रीणन्ति पुण्डलीश्चजां प्रयच्छति दशभिं मणाभ्युनन्द्रं प्रतिहतृभ्यां द्वादशय शुभङ्गां मणाक्षंसिनेवासते नेष्ठा भोदृभ्याकाय लड्वाहमग्निवो होता भोधिश्रायम् न्दीयमृष्टामगोदारे रमाब्रह्माजी आग्नेयमष्टाकपालन्नमेकादशपालम् विषङ्गीमार्पणे मार्पते वृष्टिम् पृष्ठोश्विभ्याम् पुरोढा संद्वादशपालन्यपोढा संद्वादशपालन्धन् आज्ञेयमष्टागपादम् नर्पति सौम्यञ्जलम् द्वादशपालम्बारः स्वच्छम् जलन्द्वाष्ट्रमष्टागपालम् वै स्वानरम् द्वादश कृष्णार्धवाहनवाहो दक्षिणासारञ्जरम् नृपति जलम् वैत्रम् जरन्त्यञ्जर्मादित्यञ्जलोत्तरार्धवाहनवाहो दक्षिणा स्वाद्वीन् सूर्यस्य लभिताश्वनाय पवित्रेण प्रत्यम् इन्द्रस्येत्यथानपौरवम् विूय भोजनानि ये बलिषोन्दो नेन्द्रैन्द्रमेकादशकपालम्बा दशकपालोका दक्षिणाम् कृतस्य क्यामेवरत्ना ददानाकृतमाचरण्ये पद्मा विष्णो महिधाम प्रियम् वा देवे सरस्वदेवादेधाना सरस्वते जलागन्धयज्ञम् हवन्देवे जुषाणा कृताजि शिग्मान् नवाचिपसदेषु नातो बृहस्पते जुषस्वनो हव्यानि विश्वदेव्या ैश्वरे वा ये यज्ञे मनसः बृहस्पते सुप्रजा वेदवन्दो वैकृष्यामो बृहस्पते कृतमज्जनेषु यदिच्छवप्रजा तदस्मात् सुप्रविन्दे चित्रम् हानामित्रावरुणा कृते द्व्योतिपक्षदम्प्रदोवादिनोकव्योतिपक्षदम् कृतेन ेवयो सदत्रीर्यमुदत्यो नयो श्री उपक्षरन्धवेनवः पुनन्दम् विश्वतः सोमारुद्राम्बराजीकृतञ्जिरेण प्रममुक्तमस्तु सोमारुद्रा इव मेतान्यस्मे विश्वा तनोषु्यम् नोऽस्ति तनोऽषुभक्तिम् कृतमेनो अस्मद स्य गोपो देवाः कर्मो जायमानोष्ठासु इति प्रथमकाण्डे अष्टमः प्रश्नः समाप्तः प्रथमकाण्डश्च समाप्तः